अथकश्स सर्ग तत प्रस्थाप्य सुग्रीवस्तन्मद्वानरम बल दक्षिण प्रशयामास वानलिता नीलमग्निसुत हनूम्त वानर पितामहुत चाबवसम वा सुहोत्र शरारिं शर गुलम तथा च गजम् गवाक्षम् गमयम् सुषेणम् वृषभम् तथा मयीन्दम् च द्विविदम् चैव सुषेणम् गन्धमादनम् उल्कामुखमनङ्गम् च हुताशनसुता वीरान् वीरान वीरह कपिगणेश्वरः वेगविक्रमसंपन्नान् सन्ति देशविशेषवित् तेषामग्रेसरम् चैव बृहद्बलमथाङ्गदम् विधाय हरिवीराणामादिशदक्षिणाम् दिशम् ये केचन समुद्देशास्तस्याम् दिश सुदुर्गमाः कबीशः कपि मुख्यानाम् स तेषाम् समुदाहरत् सहस्रशिरसंविन्ध्यम् नाना द्रुमलतायुतम् नर्मदाम् च नदीम् रम्याम् महोरगनिषेविताम् ततो गोदावरीम् रम्याम् कृष्णवेणीम् महानदीम् वरदाम् च महाभागाम् महोरगनिषेविता मेखलानुत्कलांश्चैव दशार्णनगराण्यपि आब्रवन्तीमवन्तीम् च सर्वमेवानुपश्यत विदर्भानृष्टिकांश्चैव रम्यान्माहिषकानपि तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः अन्वीक्ष्य दण्डकारण्यम् सपर्वतनदीगुहम् नदीम गोदावरीम् चैव सर्वमेवानुपश्यत तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यांश्च केरलान् अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः विचित्रशिखरश्रीमांश्चित्रपुष्पितकाननः सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः ततस्तामापगाम् दिव्याम् प्रसन्नसलिलाशया तत्र द्रक्ष्यथ कावेरीम् विहृतामप्सरोगणैः तस्यासीनम् नगस्याग्रे मलयस्य महौजसम् द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषि सत्तमम् ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ताम्रपर्णीम् ग्राहजुष्टाम् तरिष्यथ महानदीम् सा चन्दनवनैश्चित्रैः प्रच्छन्नद्वीपवारिणी कान्ते वयवती कान्तम् समुद्रमवगाहते ततो हेममयम् दिव्यम् मुक्ता मणिविभूषितम् युक्तं कवाटं पाण्ड्यानाम् गता द्रक्ष्यथ वानराः ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् अगस्त्येनान्तरे तत्र सागरे विनिवेशितः चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः जातरूपमय श्रीमानवगाढो महार्णवम् नालाविधैरगैः फुल्लैर्लताभिश्चोपशोभितम् देवर्षियक्षप्रवरैरप्सरोभिश्च शो शोभितम् सिद्धचारणसङ्घैश्च प्रकीर्णम् सुमनोरमम् तमुपैतसहस्राक्षः सदा पर्वसु पर्वसु दीपस्तस्यापरे पारे शतयोजन विस्तृतः अगम्यो मानुषैर्दीप्तस्तम् मार्गध्वम् समन्ततः तत्र सर्वात्मनासीता मार्गितव्या विशेषतः स हि देशस्तु मध्यस्य रावणस्य दुरात्मनः राक्षसाधिपतेर्वासः सहस्राक्षसमुद्युते दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी अङ्गारकेति विख्याता छायामाक्षिप्य एवं निःसंशयान् कृत्वा संशयान्नष्ट संशयाः मृगयध्वम् नरेन्द्रस्य पत्नीममिततेजसः तमतिक्रम्य लक्ष्मीवान् समुद्रेशतयोजने गिरिः पुष्पितको नाम सिद्धचारणसेवितः चन्द्रसूर्यांशु सङ्काशः सागराम्बु समाश्रयः भ्राजते तस्यैकम् काञ्चनम् शृङ्गम् सेवतेयम् दिवाकरः श्वेतम् राजतमेकम् च सेवतेयम् निशाकरः न तम् कृतघ्नाः पश्यन्ति न प्रशंसा न नास्तिकाः प्रणम्य शिरसा शैलम् तम् विमार्गसवानराः तमतिक्रम्य दुर्धर्षम् सूर्यवान्नामपर्वतः अध्वना दुर्विगाहेन योजनानि चतुर्दशा ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः सर्वकामफलैर्वृक्षैः सर्वकालमनोहरै तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च मधूनि पीत्वा जुष्टानि परम् गच्छतवानराह तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः अगस्त्य यत्र निर्मितम् विश्वकर्मणा तत्र योजन विस्तारमुच्छ्रितम् दशयोजनम् शरणम् काञ्चनम् दिव्यम् नाना विभूषितम् तत्र भोगवती नाम सर्पाणामालयः पुरी विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता रक्षितापन्नगैर्घोरैस्तीक्ष्णदम्ष्ट्रैर्महाविषैः सर्पराजो महाघोरो यस्याम् वसति वासुकिः नैर्यायमार्गितव्या च सा च भोगवती पुरी तत्र चानन्तरोद्देशा ये केचन समावृताः तम् च देशमतिक्रम्य श्रीमानृषभो सर्वरत्नमयः श्रीमा नृषभो नाम पर्वतः गोशीर्षकम् पद्मकम् च हरिश्यामम् चन्दनम् दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् न तु तच्चन्दनम् दृष्ट्वा स्प्रष्टव्यम् तु कदाचन रोहिता नाम रक्षन्ति तद्वनम् तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः शैलूषो ग्रामणी शिक्षः शुको बभ्रस्तथैव च रविसोमाग्निवपुषा निवासः पुण्यकर्मणा अन्ते स्वर्गजितस्थिताः ततः परम् न वस्येव्यः पितृलोकः सुदारुणः कष्टे नतमसावृता तमसावृता एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः शक्यम् विचेतुम् गन्तुम् वा नातो गतिमताम् गतिः सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते गतिम् विदित्वा वैदेह्याः सन्निवर्तितुमर्हता यश्च अग्रे दृष्टा सीतेति वक्ष्यति मत्तुल्यविभवो भोगैः सुखम् सविहरिष्यति ततः प्रियतरो नास्ति मम कृता पराधो बहुशो मम बन्धुर्भविष्यति अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः मनुजपति सुतालभ्व तद किगुण पुरुषाथ आरभध्व इर्शे श्रीमद्राणे वाक आदिकाव्ये का्ये किन्धाडे एक सर्ग